श्रीहरये नमः अथ द्वादशोऽध्यायः कुसस्यच उवाच कुशस्य पुण्ठरीको तत्पुत्र क्षेमधन्वा भवत्ततः देवानिकस्ततोनीह पारियात्रोतत तत्सुतः ततो बलस्तलस्तस्मात् वज्रनाभोकसम्भवः खगणस्तत्सुतस्तस्मात् पितृदिश्चाभवत्सुतः ततो हिरण्यनाभोभूत् योगाचार्यस्तु जैमिनेः शिष्यकौसुल्य आध्यात्मं याज्ञवल्क्योऽद्यकाद्यतः योगं महोदयं ऋषेर्हृदयघ्रन्थिभेदकं पुष्यो हिरण्यनाभस्य ध्रुवसन्निधस्तथोभवत् सुदर्शनोधाग्निवर्ण शीघ्रस्तस्य मरुःसुतः योऽसा वास्ते योगसिद्ध कलाभग्राममाश्रितः कलेरन्ते सूर्यवंशं नष्टं भावयिता पुनः तस्मात् प्रसुश्रुतस्तस्य सन्धिस्तस्याप्यमर्षणः मघ स्वांस्तत्सुतस्तस्मात् विश्वसाह्वोऽन्वजायत ततः प्रसेन जित्तस्मात् तक्षको भविता पुनः ततो बृहत् यस्तो पित्रा ते समरेहतः एते हि क्ष्वाकुभूबाला अतीता शृण्वना गतान् बृहत् भविता पुत्रो नाम बृहद्रणः उरुक्रियस्ततस्तस्य वत्सौ वृद्धो भविष्यति प्रथिव्योत्मस्तथो भानुर्दिवाको वाहिनीपतिः <laughs> सह देवस्तथो वीर्यो बृहस्थस्वोत भानुमान् प्रतीकाश्वो भानुमत सुप्रतीकोत तत्सुतः भविता मरुतेवोत सुनक्षत्रोतपुष्करः तस्यान्तरिक्षस्तत्पुत्र सुतभास्तदमित्रजेत् बृहत् राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जयः रणञ्जयस्तस्य सूतः सञ्जयो भविततः लाङ्गलस्तत्सुतः संवृतः ततः प्रसेन शुत्रको भविता रणको भविता तस्मात् सुरतस्तनयस्ततः सुमित्रो नाम निष्ठान्त एते बार्हत् बलान्वयाः सुमित्रान्तो भविष्यति यतस्तं प्राप्य राजानं संस्तां प्राप्यस्यति वै कलौ इति श्रीमद्भगवते महापुराणे नवमस्कन्धे इष्वाकुवंशवर्णनं नाम द्वादशोऽध्यायः सर्वत्र गोपिकाजीवनस्मरणम् गोविन्द गोविन्द सद्गुरुनाथ महाराज के जय